नापाव दशकम् गोप्य पाराट् रजेश्वर चौरि वचोनि समाव्रजन्ननिबीतचेत निःस्पृष्टनिःशेषतरुम् निरीक्ष्य कञ्चित् पदार्थम् चरणम् गतस्त्वाम् निःशंश्य गोपि वचनादुदन्तम् सर्वेऽपि गोपापयविस्मयान्त त्वत्पादितम् त्वत्पीतभूतस्तनतश्चरीरात् सम्मुच्चलन्मुच्चतरोऽि धूम सङ्गामदाददागरव किमेष किं शान्तन कौल्कुलवो दवेति मदङ्गसङ्गस्य न दूरे क्षणेन तावत् भवतामविष्यात् त्वम् भूतनामदनुता सुगन्ते चित्रम् पिशाचनकतः कुमार चित्रम् पुरैवा गतिचौरिणेतम् इति प्रशंसन् किल गोपलोको भवन्मुकालोकरसेन्यमाङ्क्षी दिने दिनेत प्रतिवृद्धलक्ष्मी अक्षीणमाङ्गल्यशतो व्रजोऽयम् पवन्निवासादैव प्रमोदशान्त्रपरितो विरेजे वृकेषु ते कोमलरूपहास मितः कथा सङ्कुलिता कमन्य वृद्धेषु कृत्येषु भवन्निरीक्षा समागता प्रत्यहमद्यनन्दन् अहो कुमारो मयि दत्तदृष्टि स्मितम् कृतम् माम् प्रतिवत्सकेन एके किमामित्युपसार्यपाणिम् त्वयि च किम् किम् न कृतम् वधूपे निपाययन्ति स्तनमङ्गगम् त्वाम् विलोकयन्ति वदनम् हसन्ति दाशाम् यशोदागतमाम् न भेजे सदादृशपाहि हरे गतान्मा हरे कृष्ण हरे कृष्ण कृष्ण कृष्ण हरे हरे हरे राम हरे राम राम राम हरे हरे